ऋग्वेदमण्डलं नैन् पाय्ण्ट् फ़ोर्टि फ़ोर् प्रणयिन्दो महेतन ओङ्मिन्न बिभ्रदर्शसि अभिदेवा अयास्यः मदीदुष्टो धिया हिदः सोमो हिन्वे परावती विप्रस्य धारया कविः अयं देवेषु जागृविसुद एदि सोमो यादि विचर्षणिः स नः पवस्व वाजयुश्चक्राणश्चारु मध्वरं बर्हिष्माँ आविवासदि भगाय वायवे विप्रवीरसदा वृधः सोमो देवेष्वायामद स नो अद्य वसुक्तयेक्रदु विद्गादु वित्तमः वाजन् ज्येषिश्रवो बृहत् ऋग्वेदमण्डलं 9.45 पायिण्ट् फोर्टि सपवस्वमदाय कृचक्षा देववीतये इन्द्रविन्द्राय पीतये स नो अम्त्व अं त्वमिन्द्रायतोषसे देवान् सघिभ्य आवरम् उदत्त्वा मारुणं वयं गोभिरं स्मो मदायकं पिनो राये दुरोवृद्धि अत्युपवित्रमक्रमिद्वाजि दुरन्नयामानि इन्दुर्देवेषु पत्यते समीसखायो अस्वरन्वने कृळन्दमत्यविं इन्दुन्नावा आनुषद तया पवस्वधारया यया पीतो विचक्षसे इन्दो स्तोत्रे सुवीर्यम् ऋग्वेदमण्डलं नैन् पायिण्ट् फोर्टि सिक्स् इव क्षरन्तः परिष्कृतास इन्दभो योशेव पित्र्यावदी वायुं सोमा असृक्षद ये सोमास इन्तवः प्रयस्वन्तश्चमो सुताः इन्द्रं वर्धन्ति कर्मभिः आधा वदा सुहस्त्यशुग्रा गृह्णेद मत्सरं गोभिश्रिनिधमत्सरं सपवस्वधनञ्जयप्रयन्ता राधसो महः अस्मभ्यं सोमगादुविदयेदं मृजन्तिमर्ज्यं पवमानं दशक्षिपः इन्द्राय मत्सरं मदम् ऋग्वेदमण्डलं नैन् 9.47 फोर्टि सेवेन् अया सोमसुकृत्यया महश्चिदभ्यवर्धत मन्तान उद्वृषायते कृतानि दर्श दस्युतर्हणा ऋणा च धृष्णुश्चयते आप्सोमा इन्द्रियो रसो वज्रः सहस्रसा जायते स्वयं कविर्वि धर्तरि विप्राय रत्नामिच्छति यदि मर्मृज्यते धियः शिशा सदो रयीणां वाजेश्वमिव भरेषु जिग्युषामसि ऋग्वेदमण्डलं 9.48 तन्त्वा नृम्णानि बिभ्रदं सदस्तेषु महो दिवः चारुं सुकृत्यये महे संवृत्तदृष्णुमुभ्यम् महामाहि व्रदं मदम् शदम् पुरोरुक्षणिम् अत स्वा रयिमभिराजानं सुक्रदो दिवः सुपर्णो अव्यधिर्भारत् विश्वस्मा यत्स्वदृश्ये साधारणं रजस्तुरं गोपामृतस्य व्यर्भरत् अधा हिन्वान इन्द्रियं ज्यायो महित्वमानशे अब्धेष्टि कृद्विचर्षणिः ऋग्वेदमण्डलं नैन् पायिण्ट् फार्टि नैन् पवस्ववृष्टिमा सुनोपामोर्मिन् दिवस् परी अयक्ष्मा तया पवस्वधारया यया गाव इहागमन् जन्यास उपनो गृहं कृतं पवस्वधारया यज्ञेषु देववीतमः अस्मभ्यं वृष्टिमा पव स न ऊर्जेव्या अव्ययं पवित्रन् धावधारया देवासशृण्वन्हिकम् पवमानो अशिष्य दद्रक्षांस्यपजङ्खानद ऋग्वेदमण्डलं नैन् पाय्ण्ट् फिफ़्टि उत्थे सुष्मास ईरदे सिन्धोरुर्मेरीवस्वनः बाणस्य चोदया पविं प्रसवेद उदीरदे तिस्रो वाचो मखस्युवः यद्व्येषि सानवि अव्योवारे परिप्रियं हरिं इन्वन्त्यद्रिभिः पवमानं मधुच्युतम् आपवस्व मदिन्तमपवित्रन् धारया कवे अर्कस्य योनिमासदम् सपवस्व मदिन्तम गोभिरञ्जनो अक्रोभिः इन्द्राय पीतये ए ऋग्वेदमण्डलं नैन् पायिण्ट् फिफ़्टि सोमं पवित्र आसृज पुनीहीन्द्राय पादवे दि॒वः पीयुषमुत्तमं सोममिन्द्राय वज्रिणे सुनोता मधुमत्तमं तवत्य इन्धो अन्धसो देवा मधोर्व्यश्नुते पवमानस्य मरुतः त्वं हि सोमवर्धयन् सुतो मदाय भूर्णाये वृषन् स्तोतार मोदये अभ्यर्षविचक्षणपवित्रन् धारया सुतः अभिवाज मुदश्रवः ऋग्वेदमण्डलं नैन् पायिण्ट् फ़िफ़्टि टु परिद्युक्षसनद्र हर्भरद्वाजन्नो अन्धसा सुवानो अर्षपवित्र आ तव परिप्रियः सहस्रधारो या तना चरुर्नयस्तमिङ्खयेन्दो न धनमिङ्खय वधर्वधस्नविङ्खय निषुष्ममिन्दवेषां पुरुहोदजनानां यो अस्मां अस्मादिदेशदि सदन्न इन्द ऊदिभिः सहस्रं वा शुचीनां पवस्व मं हयद्रैः ऋग्वेदमण्डलं नैन् पाय्ण्ट् फिफ्टि त्रि सुष्मासो अस्तु रक्षो भिन्दो द्रिवः नु दस्वयाः परिस्पृधः अयानि जग्निरोजसारथसङ्गे धने हि स्तवा अबिभ्युषा हृदा अस्य व्रतानि पवमानस्य दुग्ध्या रुजयस्त्वा पृतन्यती तं हिन्वन्दिमदच्युदं हरिन्नदीषु वाजिनम् इन्दुमिन्द्राय मत्सरम् ऋग्वेदमण्डलं नैन् पायिण्ट् फ़िफ़्टि फ़ोर् अस्य शुक्रन्दू शुक्रन्दु दुह्रे अह्रयः सहस्रसा मृषिम् अयं सूर्य इवोपदृगयं सरांसि धावधि सप्तप्रवद आदिवम् अयं विश्वानितिष्ठति पुनानो भुवनो परि सोमो देवो न सूर्यः परिणो देववीदये वाजाङ् अर्षसि गोमतः पुनान इन्दविन्द्रयुः ऋग्वेदमण्डलं नैन् पायिण्ट् फ़िफ़्टि फैव् यवं यवन्नो अंधसा पुष्टं पुष्टं परिस्रव सोमविश्वाच सौभगा इन्दो यधा तवस्तवो यधाते यधा ते जादमन्धसः निबर्हिषिप्रिये उतनो नो गो गोविदस्व वित्पवस्व सोमान्था सा मक्षुदमेभिरहभिः यो जिनाति न जीयदेहन्ति शत्रुमभीत्य सपवस्व सहस्रजित ऋग्वेदमण्डलं 9.56 पाय्ण्ट् फिफ़्टि सिक्स् परिसोमहृदं बृहदा शुः पवित्रे अरिषदि विघ्नन् रक्षांसि देवयुः यत्सोमो वाजमर्षदि शदन्धारा अपश्युवः इन्द्रस्य सख्यमा विशन् अभि त्वा योष नो दश जरन्नकन्या सोमसादये त्वमिन्द्राय विष्णवे स्वाधुरिन्दो परिस्रव न्योन्स्तोदृन् बाह्यं हसः ऋग्वेदमण्डलं नैन् पाय्ण्ट् फ़िफ़्टि सेवेन् <laughs> प्रते धारा असश्च दिवो न यन्दिपृष्टयः अच्छा वाजं सहस्रिनं अभिप्रियाणि काव्या विश्वा चक्षा नो अर्षदि हरिस्तु जान आयुथा समर्मृजान आयुभिरिभो राजेव सुव्रतः श्येनोन वं सुीदधि स नो विश्वा दिवो वसुधो पृथि॒व्या अधि पुनान इन्दवा भार ऋग्वेदमण्डलं नैन् पाय्ण्ट् फिफ़्टि एय्ट् धारा सुदस्यान्दसः तरत्स मन्दी धावदी उस्रावेदवसूनां मार्तस्य देव्यवसः तरत्स मन्दी ध्वस्रयो पुरुषन्त्योरा सहस्राणि दत्महे तरत्स मन्दी आ ययोस्त्रिंशदन्तना सहस्रा निज दद्महे तरत्समन्दिवति ऋग्वेदमण्डलं नैन् पाय्ण्ट् प्रजावद्रत्नमाभर पवस्वाद्भ्यो अदाभ्यः पवस्वौषधिभ्यः पवस्वधिषणाभ्यः त्वं सोम पवमानो विश्वानि दुरिता तर निबर्हिषि पवमानस्वर्विदो जायमानो भवन इन्दो विश्वाँभिदसि ऋग्वेदमण्डलं नैन् पाय्ण्ट् प्रगायत्रेण गायद पवमानं विचर्षणिम् इन्दुं सहस्र चक्षसं तन्त्वा सहस्र चक्षसमधो सहस्रभर्मसम् अदिवारा पवमानो अदिवारान्पवमानो अशिष्य दत्कल्लशाधावधि इन्द्रस्य आर्द्याविशन् इन्द्रस्य सोमराधसे शम्पवस्व विचर्षणे प्रजावद्रेद आभर ऋग्वेदमण्डलं नैन् पाय्ण्ट् सिक्स्टि वन् अयावि परिश्रवयस्त इन्दो मदेष्व आवाहन्नवतीर्नव पुरसद्यद्धा धिये दिवो दासाय शम्भरम् अधत्यन्तुर्वशयदुम् परिणो अश्वमश्वविद्गोमदिन्तो हिरण्यवद क्षरासहस्रिणीरिषः पवमानस्य देवयं पवित्रमभ्युन्तदः सखि त्वमावृणीमहे ये ते पवित्र मूर्मयो भिक्षरन्दि धारय तेभिर्नत्सो मृळय स नः पुनान आभरयं विरवती मिषम् ईशानः शक्षिपो यदमुद्यशक्षिपो मृजन्ति सिन्धु मातरं समादित्येभिरक्ष्यद समिन्दे नोत्वायुना सुदयेदि पवित्र आ संसूर्यस्य रश्मिभिः स नो भगाय वायवे पूष्णे पावस्व मधुमान चारुर्मित्रे वरुणे च चा उच्चाते जादमन्धसो दिविषद्भुम्याददे उग्रं शर्ममहि श्रवः येनाविश्वान्यर्य आ द्युम्नानि मानुषाणां सिषा सन्तो वनामहे स इन्द्राय यद्यवे वरुणाय मरुद्भ्यः वरिवो व्यत्परिश्रव उपोषुजादमप्तुरङ्गोभिर्भङ्गं परिष्कृदं इन्दुन्देवा आयासिषुः तमिध्वर्धन्धुनो गिरो वत्सं शिश्वरीरिव य इन्द्रस्य हृदं सनीहि हर्षाण सोमशङ्गवे दुःखस्व पिप्युषी मिषं वर्धासमुद्रमुभ्यम् पवमानो अजिजनदिवश्चित्रं न तन्न्यतुं ज्योतिर्वैश्वानरं बृहत् पवमानस्यदे रसो मदो राजन्न दुश्चुनः विवारमव्यमर्षदि पवमान रसस्तवदक्षो विराजदिद्युमान ज्योतिर्विश्वं स्वदृशे यस्ते मदो वरेण्यस्ते न पवस्वान्धसा देवा शंसहा जघ्निर्वृत्रमामित्रियं सस्निर्वाजन् दिवे दिवे घोषा उ अश्वसा असि संविश्लो अरुषो भवसुपस्थाभिर्नधेनुभिः सीदञ्चे नोनयोनिमा न योनिमा सपवस्वय आविधेन्द्रं वृत्रायहन्तवे वव्रिवां सं महीरपः सुवीरासो वयन्धना जयेम सोम पुनानो वर् धनो गिरः त्वोदासस्तवावसा स्याम वन्वन्द आमुरः सोमवृदेषु जागृहि अपघ्नन्पवदे मृधोपसोमो अरावणः गच्छन्निन्द्रस्य निष्कृदम् महो नो राय आभर पवमानजही मृधः रास्वेन्दो वीरवद्यशः नत्वा शदञ्चनहृदो मीनन्न दित्सन्तमामिनन् यत्पुनानो मा कस्य पृशासुधकृधि नो यशस्वो जने विश्वापद्विषो जहि अस्य ते सख्येव यन्तवेन्थोद्युम्न उत्तमे सासह्याम पृतन्यतः यादे ते भीमान्यायुधा तिक्मानि सन्ति धूर्वाणे रक्षासमस्य नो नितः ऋग्वेदमण्डलं 9.62 पायिण्ट् सिक्स्टि टु पवित्र माशवः विश्वान्यापि सौभगा विघ्नन्दो दुरिता पुरुसुगा तोकाया वाजिनः तना कृवन्दो अर्वते कृण्वन्दो सुष्टुदिम इला यिलामस्मभ्यं संयतम् असाव्यं सुर्मदायाप्सु दक्षो गिरिष्ठाः श्येनोन योनिमासदद शुभमन्धो देववादमप्सु दुदो नृभित्सुतः स्वदन्तिगावः आदिमश्वन्नखेतारोषुशुभन्नमृताय मध्वो रसं सधमादे यास्ते धारा मधुश्चुदोसृग्रमिन्द्र ऊतये ताभिः पवित्रमासदः सो हर्षेन्द्राय तिरो स्थिरोमाण्यव्यया सीधन्योना वनेष्व त्वमिन्दो परिस्रवस्वाधिष्ठो अङ्गीरोभ्यः भरिवो वित्कृदम्पयः अयं विचर्ष निर्षिदः इन्वान आप्यं बृहद येष वृषा वृषव्रतपवमानो अशस्तिहा करद्वसूनि दाशुषे आपवस्व सहसृणं रयि मश्विनं पुरुश्चन्द्रम् पुरुःस्पृहम् एषस्य परिषिच्यदे मर्मृज्यमान आयुभिः उरुगाहकविक्रदुः सहस्रो दिशदामखो विमानो रजसकविः इन्द्राय पवते मदः गिराजाद इह स्तु द विर्योना धीयदे वीर्योना वसदाविव पवमानसुधो नृभि सोमो वाजमि वा शक्माना सदम् तन्त्री पृष्ठेत्री बन्धुरे रधे युञ्जन्ति यादवे ऋषीणां सप्त भीदिभिः तंसोतारो धनस्पृदा धनस्पृद वाजाय यादवे हरिं हिनोद वाजिनम् आविशन् कलशं सुधो विश्वा अर्षन्नभिश्रियः चूरो न को सु आत इन्धो मदायकं पयो दुहन्त्या यवः देवा देवेभ्यो मधुः आनः पवित्र आसृजदा मधुमत्तमं देवेभ्यो देवश्रुत्तमं ये ते सोमा असृक्षदघृणाश्रवसे महे मदिन्दमस्य धारय अभि गव्यानि वीदये नृम्णा पूनानो अरुषसि सनद्वाज परिस्रव उतनो नो गोमातीषो विश्वा अरुष परिष्टुभः गृणानो जमदग्निना पवस्व वाचो अग्रियसोम चित्राभिरुदिभिः अभिविश्वानि काव्या त्वं समुद्रिया अपोग्रियोवाच यीरयन् पवस्व विश्वमे जय तुभ्येमा भुवनाकवेमहिम्ने सोमतस्थिरे तुभ्य मरिषन्ति सिन्धवः प्र ते दिवो न वृष्टयो धारा यन्द्यसश्चतः अभिषुक्रामुपस्थिरम् इन्द्रायेन्दुम् पुनीतनो ग्रन्थक्षाय साधनम् ईशानं वीदिराधसं पवमान ऋधकविः सोमः पवित्र मासदधस्तोत्रे सुवीर्यम् ऋग्वेदमण्डलं नैन् आपवस्व सहस्रिणं रयिं सोम अस्मेश्रवामसि अस्मे श्रवांसि धारय इशमूर्जन् पिन्वस इन्द्राय मत्सरिन्दमः च मुष्वा सुत इन्द्राय विष्णवे सोमः अक्षरद मधुमाम् अस्तु वायवे येते असृग्रमाशवो दिह्वरांसि बभ्रवः सोमा ऋदस्य धारय इन्द्रं वर्धन्तो अप्तुर कृण्वन्तो विश्वमार्यम् अपह्नन्तो अरावणः सुता अनुस्वमा रजोऽभ्यर्षन्ति बभ्रवः इन्द्रं गच्छन्त इन्दवः अयापावत्स्वधारया सूर्यमरोचयः हिन्वानो मा नो क्षीरपः अयुक्त शूर पवमानो मनावधि अन्धरिक्षेण यातवे उदत्या हरिदो दशसूरो अयुक्तया वे इन्दुरिन्द्र यदि ब्रुवन् परि दो वायवे सुदं गिर इन्द्रायमत्सरम् अव्यो वारेषु सिञ्चत पवमानविदारयिमस्मभ्यं सोमदुष्टरं यो अभ्यर्ष दुणाशो वनुष्यत अभ्यर्षसहस्रृणं अभिवाज मुदश्रवः सोमो देवो न सूर्योद्रिभिः पवते सुतः दधा कलशे रसं ये दे धामान्यार्या शुक्रारृतस्य धारया वाजं गोमन्दमक्षरन् सुधा इन्द्राय वज्रिणे सोमासो दध्याशिरः पवित्रमत्यक्षरन् प्रसोमधुमत्तमो राये हर्षपवित्र आ मदो यो देवविदमः तमीमृजन्त्याय वो हरिन्नदीषु वाजिनम् इन्दुमिन्द्राय मत्सरम् आपवत्स्व हिरण्यवदश्वा वत्सोम वीरवद वाजं गोमन्दमाफर परिवाजेन वाजयु वाजयो वारेशु वारेषु सिञ्चद इन्द्राय मधुमत्तमं कविं मृजन्ति मर्जन्धिभिर्विप्रा अवस्यवाह वृषा कनिक्रदर्शति वृषणन्धिभिरप्तुरं सोममृतस्य धारया मदी विप्रा समस्वरन् पवस्वदेवा गच्छदु ते मदः वायुमा रोह धर्मणा पवमान नितोषसे रयिं सोमश्रवायम् प्रियस मुद्रमा विश अपघ्नन्पवसे मृधक्रतुवित् सोममत्सरः नु दस्वादे वयुञ्जनं पवमाना असृक्षदसोमा शुक्रा स इन्दवः अभिविश्वानिकाव्या पवमानास आशवशुभ्रा सृग्रमिन्दवः ग्रन्थो विश्वा अपद्विषः पवमानादिवस्पर्यन्तरिक्षा दसृक्षद पृथि॒व्या अधिसानी पुनानः सोम धारयेन्दो विश्वा अपस्रद्धः जहि रक्षांसि सुक्रतो अपक्नन् सोम रक्षसोऽभ्यर्षकनिक्रदद्युमन्तं मुत्तमं अस्मे वसूनि धारय सोम दिव्यानि पार्थिवा इन्धो विश्वानि वार्या ऋग्वेदमण्डलं नैन् पायिण्ट् सिक्स्टि फोर् पृषा सौमद्युमाँ असि वृषा देववृषव्रदः स्पृषाधर्माणि दधिषे पृष्णस्ते वृष्ण्यंशवो वृषावनं वृषामदः सत्यं वृषन् वृषेदसि अश्वो चक्रदो चक्रतो वृषासङ्गा इन्धो समर्वदः विनो राये दुरो वृधि अस्य क्षद प्रवाजिनो गव्या सोमासो अश्वया शुक्रासो वीरया शवः शुम्भमाना हृदायुभिर्मृज्यमाना गभस्त्योः पवन्ते वारे अव्यये ते विश्वा दाशुषे वसुसोमा दिव्यानि पार्थिव पवन्ता मान्तरिक्ष्या पवमानस्य विश्वविप्रदे सर्गा असृक्षद सूर्यस्य स्येवनरश्मयः केतुं कृण्वन्ति वस्परि विश्वा रूपाभ्यर्षसि समुद्रसोम पिन्वसे हिन्वानो वाचमिष्यसि पवमान विधर्मणि अक्रान् देवो न सूर्यः किन्तु पविष्टचेत नः पृहः कवीनां सृजदश्वं रधीरिव फुर्मिल्यस्ते पवित्र आदेवाविः पर्यक्षरद सीदन्नृतस्य योनिमा स नो अर्ष पवित्र हा मदो यो देववीदमः इन्दविन्द्राय पीतये इषे पवस्वधारया मृज्यमानो मनीषीभिः इन्दो रुजाभिगा इ पुनानो वरिवस्कृध्योर्जन्जनाय गीर्वणः हरे सृजान आशिरम् पुनानो देववीतय इन्द्रस्य याहि निष्कृदं वाजिभिर्यतः प्रहिन्वानास इन्दवोच्चा समुद्रमाशवः धि॒या ज्योता अस्रिक्षत मर्मृजानास आयवो वृथा समु॒द्रमिन्दवः अगमन्नृतस्य योनिमा परिणो याह्यस्मयुर्विश्वा वसून्योजस पाहि न शर्म वीरवद मिमादि वह्निरेतसः पदयोजानृध्वभिः प्रयत्समुद्र आहीतः आ यद्योनिं हिरण्ययमाशुहृदस्य सीदधि अभिवेना अभि वे॑ना आनुषदे चेतसः इन्द्रायेन्दो मरुत्वा दे पवस्वमधुमत्तमः ऋतस्य योनि मासदम् तन्त्वा विप्रा वचो विदः परिष्कृण्वन्दि वेधसः सन्त्वा मृजन्त्यायवः रसन्ते मित्रो अर्यमा पिबन्ति वरुनः कवे पवमानस्य मरुतः त्वं सोम विपश्चितं पुनानो वाचमिष्यसि इन्दो सहस्रभर्णसं पुतो सहस्रभर्णसं वाचं सोममखस्युवं पुनान इन्दवा भर पुनान इन्दवेषां पुरुहूदजनानां प्रियसा मुद्रमाविश दविद्युतत्या ऋचपरेष्टो भन्त्या कृपा सोमा शुक्रा आवाजं वाज्यक्रमीत श्रीदन्तो वनुषो यथा पृथक् सो मस्वस्तये पवस्व सूर्यो दृशे